मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं टु सूर्यसञ्जीवनदानम् श्रीगणेशाय नमः वालकिल्या ऊचुः वदसूर्यविशेषेण ब्रह्मणा कथितम् महद गणेशस्य ते श्रवणे लालसा प्रभो सूर्य उवाच पुराहमात्मरूपे च संस्थितः सर्वलोककः का गणेशध्यानसन्निष्ठो योगीन्द्राणां गुरुस्वयं ब्रह्मणासृष्टमत्यन्तं त्रैलोक्यं सचराचरं कश्यपस्तत्र मुख्यो वै प्रजापदि समो भवद तेन तपस्तप्तम् वर्षाणामयुधं द्विजाः आकृष्णेनेदिमन्द्रेण ध्याननिष्ठो बभूवः ततस्थं वरदाहं गतस्तस्याश्रमे पुरा समां दृष्ट्वा नमस्कृत्या पूजयद्भक्तिसंयुधः ततस्तुष्टावमां विभ्रक् प्रबद्धकरसम्पुडः वरदं सर्वभावेन भक्तिनम्रात्मकन्धरः कश्यप उवाच नमस्ते जगदाधार आत्मने परमात्मने सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः भेदाभेदविहीनाय नानाभेदधराय ते अनाकाराय देवाय शाश्वताय नमो नमः अमे यशक्रये तुभ्यं कर्माधाराय भानवे सर्वकर्ममयायैव त्रिरूपाय नमो नमः अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने अर्यम्णेरवये चैव हरिदश्वायते नमः आदिमध्यान्तहीनाय तदा धाराय ते नमः अनन्दविभवायैव तेजोराशे नमो नमः दीननाथाय सर्वाय दिनानां पदये नमः नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः मुक्तिमुक्तिप्रदायैव नानाखेलकराय च नमो नमः परेशाय पुरुषाय दिवस्पदे एकस्मै एकस्मैश्चाद्वितीयाय मायाद्धाराय मायिने सञ्ज्ञापदे नमस्तुभ्यं रक्षमां शरणागतम् आत्मापारं च सर्वत्र किं स्तौमि दिवाकरम् समर्था नाभवन्वेदा अतस्त्वां प्रणमामहे देहि मे परमेशानभक्तिं ते चरणाम्बुजे अन्यं वरं ययाचेहं त्वं मे पुत्रो भवप्रभो सूर्य उवाच एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनं तवपुत्रो पुत्रो भविष्यामि द्वादशादित्यरूपवान् मदीया भक्तिरुग्रादे भविष्यदि महामुने यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेद भवामि स्मरणेनाहं प्रत्यक्षस्ते पुरो मुने एवमुक्त्वा वा वालकिल्याः सौरलोके गदो भवम् अन्तर्धाय स्वमात्मानं तया पीदं च विप्रेन्द्रा याजिदं तन्मया कृतम् अखम् पुत्रस्य भावेन कश्यपाज्जरे गदः आदित्याश्च सुकालेसा सा सुषुवेमां महर्षयः जातकर्मादिकं सर्वं चकार मुनिसत्तमः काले मौज्यादिग कर्म वेदाध्यय वेदाध्ययनमिशद तथा तुत्र विश्वर्मा तपोज संग्रे भविता पुत्री कर्मू सुसिधिदत्त साभू व मह्यं तदस्तेन भावेन दत्ता विश्वकर्मणा अहं च ब्रह्मणा तत्राभिषिकृतो ज्योतिषां तथा ग्रहाणां कर्मणां राज्ये तदोहं मुदिदो भवं सदाधारमिदं सर्वं त्रैलोक्यं सचराचरं वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पिदं कर्मणां फलदासं कर्मा धारः प्रकीर्तितः वेदे सर्वजनानामन्तरात्मा जगदात्मनां तदो बहौ काले भवं मनसि गर्वितः निराधारोहमेको वै मदाधारमिदम्बभौ कश्यपश्य सुदोहं वै जातस्तत्र मया द्विजाः कर्मधारिणा एवं तत्रापि बहुकालो गतोऽभवत् तदो कस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः मालीसु मालिको दैत्यौ ते पतुस्तप उत्तमं दिव्यवर्षसहस्राणि शिव सन्तोषितोऽभवत् परं ददौसताभ्यां यद्याचितं तादृशं परं सूर्य तेजःसमं दिव्यं विमानम् प्रापतुस्तदा ताभ्यां विमाननिष्ठाभ्यां जिदं सर्वं चराचरं राज्यं तौ चक्रदुर्दैत्यौ त्रिलोकस्य महर्षयः ततो बहौ गते काले दर्शयन्तौ च मां द्विजाः विमाने संस्थितौ दैत्यौ जग्मदुर्दिविभानुवद विमानतेजसा सर्वं व्याप्तं त्रैलोक्यमण्डलं रात्रिलोपं च सर्वत्र चक्रदुःपरमाद्भुतौ दैत्यौ विमाने तत्र संस्थितौ उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ेवं मां तौ निरर्थं वै चक्रदुर्दैत्यपुङ्गवौ अर्कते जः विमानेन महौ जसौ अहं सङ्क्षुभिदोऽत्यन्तं जातस्तदभिभो द्विजाः असहे वरदानस्य बलं ज्ञात्वा विशेषतः एवं सप्तगतास्तत्र दिवसास्तदपि द्विजाः न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः कर्मलोपश्च सर्वत्र भ्रमाज्जादो महर्षयः तेजसा दग्धरूपा वै पृथ्वीजादा तथा जनाः तदोऽहं क्षुभितोऽत्यन्तं कर्वयुक्तस्व जसा ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छदुः दग्धौ तेजः मदीयेन तदशिवः आययौ सहसा क्रुद्ध विशेषदः त्रिशूलेन मदीयं वैशिरश्चिन्नं शिवेन च पतितोऽहं तदकाश्यां लुलितः तदसर्वं जगत्क्षुब्धं सूर्यहीनतया तद्रिष्ट्वा तद्दृष्ट्वा परमाश्चर्यं ययुस्तत्र देवाः सर्वे भयोद्विघ्ना विष्णुब्रह्मादयो ययुः शङ्करं सान्त्वयामासुर्नानायत्नाय सुरर्षयः तदशिवं समूचुस्ते किं कृतं वृषभध्वजा सूर्यं हत्वा सदात्मानं जगद्धारयसे कथम् त्वं कालरूपभावेन तमो युक्तः अकाले विश्वसंहारे वरुतसे किं महेश्वर तेषां वचनमाकर्ण्य शङ्करः शोकसंयुतः जगादतान् महादेवान् दैवेनेदं सुकारिदम् निमित्तमात्रं भावेन मां कृत्वा जसुरर्षयः विघ्नराजेन विघ्नोऽयं दारुणः सम्प्रकाशितः मह्यं पुरा गणेशानो वरदा बभूवः स्मृतमात्रस्तव ग्रेहं साक्षाद्वै सम्भवामि च अदोऽहं शरणं तं च गमिष्याम्यधुना विभुम् जीवयिष्यामि भानुं तं तेजसा गणपस्य च इत्युक्त्वा तं हृदि ध्यात्वा मनसा पूजयच्च सः अयाचदविशेषेण जीवनाय रवेरपि जगज्जीवनदातायं सूर्यस्वामिन्मया तम् जीवय गणेशान नो चेद्देहम् त्यजाम्यहम् इति प्रार्थयमानं तम् ज्ञात्वा शम्भुम् गजाननः आत्मानामात्मरूपः स जीवयामास्स तम् उद्धितं कश्यपश्यैवम् पुत्रम् दृष्ट्वा सुरर्षयः हर्षितास्तं जयेतिस्म गजानन गजाननजगुर्मुदा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः ओ